ऊरुभ्यान्ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् यक्ष्मं श्रोणिभ्याम्भासदाद्भंससो विवृहामि ते ऊरुभ्यान्ते अष्ठीवद्भ्यां पिभ्यां प्रपदाभ्याम् यक्ष्मं श्रोणिभ्यां भासदाद्भंससो विवृहामि ते ऊरुभ्यान्ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् यक्ष्मं श्रोणिभ्यां भासदाद्भंससो विवृहामि ते